गणेशपुराणम् उपासनाखण्डम् अध्ययं वन् श्रीगुरुभ्यो नमः श्रीगणेशाय नमः श्रीसरस्वत्यै नमः श्रीरेणुकायै नमः ॐ नमो भगवते कृष्णचन्द्राय अथ श्री वेदव्यास प्रणीत श्रीगणेश अथमोध्या नमस्म गणेशा ब्रह्म विद्याये नाम विघ्न नाम शोषण ऋषय ऊचु सुदसूदमःप्राज्ञवेदशास्त्रविशारद सर्वविद्यानिधेत्वत्तो वक्तान्यौनौपलभ्यते जन्मजन्मादरीयं न स्थितं पुण्यं महत्तरं तेन सन्दर्शनं जादं सर्वज्ञस्य सदस्तवः। वयं धन्यतमालोके जीवितं नः सुजीवितं पितरो वेदशास्त्राणि तपांस्याश्रम एव च अष्टादशपुराणानि विस्तराश्रावितानि नः अन्यान्यपि हि न शौनके ये महासत्रे सक्ताद्वादशवार्षिके त्वत्कथामृतपानान्दो नान्यद्विश्रामकारणं सूत उवाच साधु पृष्ठं महाभागा भवद्भिः साधूना सामचित्ता मतिर्लोकोपिणी मी पोषोस्ति कथा कथने अद साधु वृत्तेभ्य कथयिष्ये विशेषद अन्ुपुराणा वर्धन धा दश गणेशं नारदीयं च नृसिंहादिन्यथापि च गणेशस्य पुराणं यत्तत्रादौ कथयाम्यहं दुर्लभं श्रवणं यस्य मत्यलोके विशेषदह यस्य स्मरणमात्रेण कृतकृत्यो भवेन्नरः प्रभावमस्य कदिदुं नेशेषश्चतुर्मुखः गणेशस्य पुराणं यत्तत्रादौ कथयाम्यहं दुर्लभं श्रवणं यस्य मर्त्यलोके विशेषतः यस्य स्मरणमात्रेण कृतकृत्यो भवेन्नरः प्रभावमस्य गदितुं नेशशेषश्चदुर्मुखः सङ्क्षेपतो न ब्रवीम्येतत्तथापि भवदाज्ञया बहुजन्मार्जितैपुण्यैरस्य दुःश्रवणं भवेद् पाखण्डीनां नास्तिकानां न ना भवेत् पापकर्मिणां नित्यत्वात् निर्गुणत्वाच्च अनादित्वाच्च तत्त्वतः गणेशस्य स्वरूपं तु वक्तुं केनापि नेष्यते तथाप्युपासनासकृतैः सगुणं तन्निरूप्यते ओङ्काररूपी भगवान् यो वेदादौ प्रतिष्ठितः यं सदा मुनयो देवा स्मरन्तीन्द्रादयो हृदि यं पूजयन्ति सततं ब्रह्मेश्यानेन्द्रविष्णवः यो हे दुःसर्वजगतां सर्वकारणकारणम् यदाज्ञया कसृचतेध विश्वं यदाज्ञया पालयते च विष्णुः यदाज्ञया संहरदेहरोऽपि यदाज्ञया सम्भ्रमदे दिनेशः यदाज्ञया वादिसमीरणोऽपि यदाज्ञयापप्रवहन्ति दिक्षु यदाज्ञया भानिपदन्ति भूमौ यदाज्ञयाग्निज्वलति त्रिलोके तस्य यच्चरितं गुप्तं कस्यापि न तदहं वः प्रवक्ष्यामि सादरं श्रूयतां द्विजाः ब्रह्मणा कथितं पूर्वं व्यासायामि दते जसे भृगवे कथितं तेन सोमकान्ताय तेन च पृताय यज्ञैस्तपोभिश्च दानैस्तीर्थैश्च कोटयः भवन्ति पुन्यानां पुण्यानां तेषां बुद्धिप्रजायते गणेशाख्यपुराणस्य श्रवणे द्विजसप्तमाः माया येषां न संसारेण दारापत्यभूमिषु मयूरेशकथायां ते सादरा मुनिसप्तमाः श्रूयदा मस्य महिमा सोमकान्तप्रसङ्गदः सौराष्ट्रे देवनगरे सोमकान्तो भवन्नृपः वेदशास्त्रार्थतत्त्वज्ञो धर्मशास्त्रार्थतत्परः दश नागसहस्राणि हयानां द्विगुणानि च रथानां षट्सहस्राणि यं गीदमनुयान्ति च पदातयोऽप्यसङ्ख्यादा अग्निशस्त्रधरास्तथा कोदण्डधारिणश्चान्ये निशङ्गद्वयधारिणः बुध्या बृहस्पतिं जिज्ञे सम्पदा धनदञ्चयः क्षमया पृथिवीं जिज्ञे गाम्भीर्येण महो दधिं सूर्याचन्द्रमसौ जिज्ञे भास कान्त्या चयो नृपः प्रतापेनानलं जिज्ञे सौन्दर्येण मनोभवं यस्यामात्या यस्यात्याः प्रबलिनः पञ्चास्सन्दृढविक्रमाः निधिशास्त्रार्थतत्त्वज्ञाः परराष्ट्रविमर्दिनः रूपवान् प्रथमस्तत्र विद्याधीशस्तथा परः क्षेमं करो ज्ञानगम्यः सुबलः पञ्चमः स्मृतः यदैर्नाविधादेश आक्रान्तास्वपराक्रमाद् ये सुन्दरा ंदरा भूषा वस्त्र्यकान राजितमा भृश तस्ोद्याधर्मा गुणशालिनी तद्रूपमोक्यरंभादिलोत्तमा लज्जिता सुखं क्वापि लेभिरे नचमे च अनेक रत्न अनेकरत्नरचिते तडांगे काञ्चने शुभे बिभ्रदि कर्णह्योः कण्ठे निष्कं मुक्ताफलानि च कटौरत्नमयीं काञ्चीं तादृशे नूपूरेङ्गे अङ्गुलीयान्युत्तमानि करपादाङ्गुलीषु च वासांस्यनेकवर्णानि महार्हाणि सहस्रशः भजने दाने सक्ताचा दिधि पूजने सेवने हर्निशं भर्तुर्वचने शरदा सदा हेम कंठ यी ख्यापुत्रो भुवन शुभ नागायुध बलोधीमाक्रमी शत्रुतापन आसि सोम कांधपृथिव्याज्तम सर्वान्जों वशे कृत्वा चक्रे राज्यम धरा तले। नित्यं धर्मरथो यज्वादात्यागी द्विजोतमाः इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तवर्णनं नाम प्रथमोऽध्यायः ओ